एष ह्यैन्द्रो वै जयन्तो गुणैर्नित्यम् समाहितः येनासुरान् पराजित्य जगत्पातिशतक्रतुः स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव सैन्यैर्बाहुल्यबलदर्पितः मा वमंस्थाः परान् वीर्यं नरे, नरे समं तेजस्त्वया चैव विशिष्टं वा यावदेतदसम्बुद्धं तावदेव भवेत्तव विषह्यमेतदस्माकमतो राजन्द्रवीमिते जहित्वं सद्रशेश्वेवा मानं दर्पं च मागध मागमः स सुतामात्यः सबलश्चयमक्षयम् दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः श्रेयसो ह्यवमन्ये ह युयुक्षमाणास्त्वत्तो हि न वयम् ब्राह्मणा ध्रुवम् शौरिरस्मि हृषिकेशोन्द्रवीरौ पाण्डवाभिमौ अनयोर्मातुलेयम् च कृष्णं स्थिरो युध्य स्वमागध मुञ्च वा यमक्षयम् जरासंध उवाच नाजितान्वै नरपती नंश्चन अजितः पर्यवस्थाता कोत्रयो नमयाजितः मया जितः क्षत्रियस्यैतदेवाहुर्धर्म्यम् कृष्णोपजीवनम् विक्रम्यवशमानीय कामतो यत्समाचरेत् देवतार्थमुपाहृत्य राज्ञः कृष्ण कथम् अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः द्वाभ्यां त्रिभिर्वायोत्स्येऽहं युगपत्पृथगेव वा वैशम्पायनुवाच एवमुक्त्वा जरा सन्धः सह देवाभिषेचनम् राजा युयुत्सुर्भीमकर्मभिः दर्शभ कौशिकम् चित्रसेनम् च तस्मिन् युद्ध उपस्थिते ययोस्तेनामणि राजन् हंसेति डिम्भकेति च पूर्वम् सङ्कथितम् पुम्भिर्नलोके लोक सत्कृते तम् तु राजन् विभुः राजा दम्बलिनां वरम् स्मृत्वा पुरुष शार्दोलः शार्दोल समविक्रमम् सत्यसन्धो जरासन्धम् भागमध्यम मधुर्मृधे